मुग्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं सिक्स् मोहासुरराज्याभिषेकम् श्रीगणेशाय नमः वालकिल्याऊचुः श्रुतं सर्वं महाभागभानो ब्रह्मप्रदायकम् तथापि न वयं भवामो भवामोमृतपानवद अधुना ब्रूहि माहात्म्यं मोहस्य जगदीश्वरा शिववीर्या समुत्पन्न किं चकाररवे वद मुग्गल उवाच मुनीनां वचनं श्रुत्वा तान् जगादमहामतिः सूर्य सर्वान्तरात्मा च मोहस्य चरितं विधे सूर्य उवाच शिववीर्यात्समुत्पन्नो मोहः परमशोभनः जगामशरणं तत्र काव्यं वेदविदाम्बरं तं प्रणम्य जगदासौ वृत्तान्तं सर्वमञ्जसा स्वस्योत्पत्तिस्वरूपं यद्विनीतात्मा विशेषदः कथयित्वा पुनः मां शाधिशिष्यकं त्वदधीनं विनाधं वैकार्यं वदमहामुने महामुने इति तस्य वच श्रुत्वा शुक्रो उपवीतादिकं सर्वं कारयामास दैत्यपैः जृम्भाय पुत्रभावेन ददौ तं मोहमुल्बणम् तत्र वेदाधिकम् तेनाधीतम् महर्षयः प्रमादासुरनामा वै तस्मै पुत्रीं ददौ स्वकाम् रूपलावण्यसंयुक्ताम् नाम्ना च मदिरां द्विजाः मोहो नत्वा स्वतां सङ्गृह्य शुक्रान्महामनुं सूर्यस्य सवने गत्वा तताप परमं तपः ऊर्ध्वदृष्टिं बबन्धात्सौ सूर्यं ध्यायन् समण्डले मन्त्रं निराहार निराहारपरायणः दिव्यवर्षसहस्रेण प्रसन्नो भूद्दिवाकरः तं ययौ वरदानार्थं स्वभक्तं भक्तिभावितः अस्ति समायुक्तं समायुक्तम् मोहं दृष्ट्वा रम्या प्रभुः विस्मिदो धैर्यं दैत्यस्य परमाद्भुतम् बोधयामास तं शीघ्रं रविर्देववरस्वयं वरं ब्रूहि महामोहप्रसन्नोऽहं ददामि ते श्रुत्वा मदीयवाक्यं सप्रबुद्धोऽ सुरनायकः पुरतो मां स्थितं वीक्ष्य प्रणनामकृताञ्जलिः उद्धाय पूजयामास मोहासुर उवाच नमः सूर्याय भानवे भास्कर नमो नम दे कर्म मूलधराय चर्मायवाय स्वात्मने दे नमो नमनाभेदरानाभेद विवर्जित सदा मृतस्वरूपाय परमात्मन्नमोऽस्तु ते अनन्तापाररूपाय जगज्जीवनमूर्तये सत्याय सत्यपात्रे ते दिवाकरनमोऽस्तु ते त्रयी बोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक सदाहङ्कारनाशिने ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः अनादये महेशाय परेशाय नमो नमः वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक मायाधाराय मायाश्चालकाय नमो नमः किंस्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो तथाभिज्ञानप्रामाण्यात्संस्तुतोऽसि नमाम्यहं यदि तुष्टोऽसि देवेश वरं दातुं समागतः तदा मे मरणं स्वामिन्न भवेन्मां तथा गुरु नामरूपधरं सर्वं तस्मान्मृत्युर्नमे भवेद राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर आरोग्यादिसमयुक्तां देहसत्तां महाप्रभो सर्वाधिकाञ्च मे देहि सङ्ग्रामे विजयं तथा यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेद त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो एवमुक्त्वा महादेवं भास्करं प्रणनामसः उद्धाय तस्य सामीप्ये संस्थितो विनयान्वितः तद स सविता तत्र विस्मितस्तमुवाचः त्वया यत्प्रार्थितं दैत्य तत्सर्वं लभसे महद त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनं सर्वकामप्रदं चैव भविष्यदि सुशृण्वे इत्युक्त्वार्दधे देव सविदा स्वस्थलं ययौ दैत्योऽपि हर्षितो भूत्वा स्वगृहं प्रजगामः मातरं पितरं तत्र प्रणनाम महासुरः सुहृदो मानयामास यथा सम्बन्धपूर्वकं ततः शुक्रं जगामासौ तं प्रणम्य महासुरः मोहसङ्कथयामास वृत्तान्तं तस्य सन्निधौ उपचारै प्रपूज्यासौप्रणम्यस्वगृहं पुनः आययौहर्षसंयुक्तो नगरं निर्ममेतदः विषयावासकं नाम मुनिस्तस्य चकार वै शुक्रः परमतेजस्वी तत्र वासं चकारसः असुरादय एवं वै वृत्तान्तं यत्र तत्र ते श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिं नगरं शुशुभे सर्वादिकं सर्वाधिकं चानुपमं पृथिव्यां पूर्णभोगदम् ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः शुक्रेण प्रेरितास्तम् ते प्रणेमोर्भावसंयुताः प्रचण्डश्चैव चण्डश्च महाकालश्च वीर्यवान् कालान्तकादयश्चान्ये बहवो दैत्यनायकाः मिलिता दैत्यसंयुक्तास्त तदाज्ञावशवर्तिनः भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ततो द्विजैस्वयम् काव्यस्तम् चकारमहर्षयः दैत्याधिपं स शिषे च तदर्थम् राज्यसम्पदि तदस्ते मुदिता सर्वे दैत्या स्वस्वस्थलं ययुः मुख्यास्तत्र स्थिदाभिप्रा सेवार्थं लालसायुताः एवं मोहासुरश्रेष्ठोऽसुराणां नायको भवद तमाश्रित्य महादैत्या हर्षिता अचरन्धराम् ॐ तत्सदिति पुराणो वनिषदि श्रीम्न्मुद्गले महापुराणे तृतीय खंडे महोदरचरी मोहासुरराज्याषेको नाम ष्ट ओं